श्रीहरये नमः अथ अष्टादशोऽध्यायः श्रीभगवानुवाच वनं विबिशु पुत्रेषु भार्यान्यस्य सहैव वां वन एव बचेच्छान्तस्तृतीयं भागमायुषः कन्दमूलफलैर्वन्यैर्मेत्यैर्वृत्तिं प्रकल्पयेत् <laughs> Seriously... <laughs> वसितवल्कलं वा शस्त्रिणपर्णाजिनानि च केशरो मन कस्मश्रो मलानि बिभ्रुया धावेधप्सु मज्जेतत्रिकालं स्तण्डिलेशयः ग्रीष्मे तप्येत पञ्चाग्निन् आगण्डमग्नशिशिरे एवं वृत्तस्तपश्चरेत् अग्निपक्वं समस्नीयात् कालपक्वमतापि वा उलूकला स्वयं सञ्चिनुयात् सर्वमात्मनो वृत्तिकारणं देशकालपलापिज्ञो नादधीतान्यधा हृतम् वन्द्यैश्चर पुरोढाश्चैर् निर्वभेत्कालचोदितान् न तु श्रौतेन पशुनामान् च धरश्च पूर्णमासश्च पूर्ववेत् चातुर्मास्यानि च मुने आम् दातानि च नैघमैः एवं सीर्ष्णेन तपसा मुनिर्धमनि सन्ततः मां तपामयमाराध्य ऋषिलोकाधुपैति मां विश्वेतकृश्रतः शीर्णं तपो निःश्रये सम्महत् कामायाल्पीयसे युञ्जात् बालिसक्कोपरस्ततः यता सौ नियमे कल्पो जरया जातवेपतुः आत्मन्यग्निं समारोप्य मश्चितोऽग्निं समाविशेत् यथा कर्मविपाकेषु लोकेषु निरयात्मसु विरागो जायते स्यक् न्यस्ताग्निप्रव्रजेत्ततः इष्ट्वा यतोपदेशं मां धत्वा सर्वस्व हृद्विजेम् अग्नीन् स्वप्राण विप्रस्य वैसम्यसतो देवधाराधिरूपिणः विघ्नान् कुर्वन्त्ययं ह्यस्मान् आक्रम्य बिभ्रूया चेन्मुनिर्वासकौपीन आच्छादनं परं त्यक्तं न दण्डपात्राभ्याम् अन्यत् किञ्चिदनापधि दृष्टिभूतं न्यसेत् पादं वस्त्रपूतं पिबे जलं सत्यपूतां वदेत् वाचं मनःपूतं समाचरेत् मौनानि हानिलायामाम् दण्डो वाग्देहचेतसां न ह्येते यस्य सन्त्यङ्घ वेणुभिर्न भवेद्यति हेम् भिक्षां च दुर्शवर्णेषु भिगर्ह्यान् वर्जयन्श्चरेद् सप्ताकारान् असङ्क्लृप्ताम् तुष्येत् बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाक्यधहान् विभज्य पापितं शेषं भुञ्जीता शेषमाहृतं एकश्चरेन्महीमेतां निस्सङ्गसंयतेन्द्रियः आत्मक्रीड आत्मरथ आत्मवान् समदर्शनः विविक्तक्षेमशरणमद्भावविमलाशयः आत्मानं चिन्तये देहम् अभेदेन मया मुनिः अन्वीषेत् आत्मनो बन्तं मोक्षं च ज्ञाननिष्ठया बन्ध इन्द्रियविक्षेभो मोक्ष येषां च संयमः तस्मानियं यषड्वर्गं मद्भावेन चरेन्मुनिः विरक्तक्षुल्लकामेभ्यो लब्ध्वात्मनि सुखं पुरग्राम व्रजान् शार्तान् भिक्षार्तम् प्रविसंश्चरेत् पुण्यदेशरिश्चैव नाश्रमवतीष्व भीष्णम् भैष्यमाचरेत् संसिद्धत्या स्वसम्मोखशुद्ध सत्त्वशिलान्धसा नै नद्वस्तुतया पश्येत् अशक्तचित्तो विरमेतिहामुत्रचिकीर्षिता यदेतदात्मनि जगन्मनो वाक्प्राणसंहतं सर्वं मायेदि तर्केण स्वस्थस्त्यक्त्वा न ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वा न सलिङ्गानाश्रमां त्यक्त्वा चरेत् अविधिगोचरः भूतो बालकवत् क्रीडेत् कुशलो जटवच्चरेत् वदेन्मत्तवत् विद्वान् गोचर्यां वेदवाधरतो न श्यात्मपाखण्डीन कैतुकः शुष्कवादविवादेन कच्चित् पक्षं नोद्विजेत जनाद्धीरो जनं चोद्वे जयेन्न तु अधिवातां सति तीशेतनावमन्येत कञ्चन दीहमुक्तिश्च पशुव त्वैरं कुर्यान्न के न चेत् यथेन्दु रुधपात्रेषु भूतान्यकात्मकानि च अलब्ध्वान काले काले सनम् क्वचित् लब्ध्वान् हृष्ये धृतिमान् उभयम् दैव तन्त्रितम् समीहेत युक्तम् तत्प्राणधारणम् तत्त्वम् विमृश्यते तेन तत् विमुच्यते यत्रुश्चयोपपन्नान्न अद्याश्रेष्ठमुता परं तथा वासस्तथा सय्यां प्राप्तं प्राप्तं भजेन्मुनिहे शौचमाचमनं स्नानं न तु चोदनया चरेत् अन्यांश्च नियमाज्ञानी यथाहं लीलयेश्वरः तस्य विकल्पाख्याया च मद्वीक्षया आदेहान्तात्कचित्यादिस्ततः सम्पद्यते मया दुःखो दर्गेषु कामेषु जातनिर्वेद आत्मवान् अविज्ञासितमद्धर्मो गुरुं मुनिम् उपाव्रजेत् तावत् परिचरेत् भक्तश्रद्धावान् अनसूयकः यावत् ब्रह्मविज्ञानीयात्मामेव यस्त्वसंयतषड्वर्ग प्रचण्डेन्द्रियशारथिः ज्ञानवैराग्यरहितस्त्रितण्डमुपजीवति सुरानात्मानमात्मस्तं निनुते मां च धर्मः अविपक्वकषायोऽस्मादम् उष्मा च विहीयते बिशो धर्मः समो अहिंसा तप ईक्षा वनौकसः गृहिणो भूदरक्षेज्य द्विजस्याचार्यसेवनं ब्रह्मचर्यं तपः संतोषो सन्तोषो भूतसौहृदं गृगस्तस्याव्युरुदौघं तु सर्वेषां मधुपासनम् इति मां यस्वधर्मेण भजन् अनन्यभाग सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृटां भक्त्योद्धव अनपायिन्या सर्वलोकमहेश्वरं सर्वोत्पत्यव्ययं ब्रह्म कारणं मोपयादि सः इति स्वधर्मनिर्णिक्तसत्त्वो सत्वो ज्ञानविज्ञानसम्पन्नो न चिरात्समुपैति मां वर्णाश्रमवतां धर्म ईश आचारलक्षणः स एव मद्भक्तियुतो निःश्रेयक सकरः परः एतत्तेऽपि इदं साधो भवान् भृच्छति यच्छ यथा स्वधर्मसंयुक्तो भक्तो मां समियात्परम् इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते अष्टदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्दा, गोविन्दा सद्गुरुनाथमगराजकी जय